श्रीमद्भागवत् महापुराण सप्तमस्कन्ध अथैकादशोऽध्यायः मानवधर्म वर्णधर्म और स्त्रीधर्मका निरूपण श्रीशुकुवाच श्रुत्वे हितं साधुसभासभाजितं महत्तमग्माग्रण्यगुरुक्रमात्मनः युधिष्ठिरो दैत्यपतेर्मुदायुतः पप्रक्षभूयस्तनियं स्वयं युधिष्ठिर उवाच भगवत् श्रोतुमिच्छामि नृणां धर्मं सनातनं वर्णासमाचार्युतं यत्पुमान् विन्दते परं भवान् प्रजापते साक्षादात्मजा परमेशिनः सुतानां सम्मतो ब्रह्मस्तपो योगसमाधिभिः नारायणपराभिप्राधर्मं गुह्यं परं विदुः करुणाः साधवः सान्तात्त्वद्विधानां तथा परे नारद्वाच नत्वा त्वा भगवते जाय लोकानां धर्महेतवे वक्षे सनातनं धर्मं नारायणमुखास्त्रतं योगतिर्यात्मनं सेनदाक्षायण्यां तु धर्मतः लोकानां सस्तये ध्यास्ते तपोपद्रिकाश्रमे धर्ममूलम्भि भगवान् सर्वभेदमयोहरिः स्मृतं च तद्विधां राजन्येन चात्मा प्रसीदति सत्यं दया तपशोचं तिक्षेच्छासमुदमः अहिंसा ब्रह्मचर्यं च त्यागत्वाध्यायार्जवम् सन्तोषः संदृक्सेवा ग्राम्येहो परमर्शनैः नृणां विपर्ययेः क्षा मौनमात्माविमर्शनम् अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः ते स्वात्मदेवता बुद्धिसुतरामृतपाण्डवश्रवणं कीर्तनं चास्य स्मरणं महतां गते सेवेद्यावनतिर्दासं लीणामयं परो धर्म सर्वेषां समुदाहितः ते संलक्षणां वान् राजन् सर्वात्मा येन तुष्यति संस्कारायद्विच्छिन्नाः स द्विजोजो जगाद्यमः यज्ञाध्ययनदानानि विहितानि द्विजन्मनां जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः विप्रस्याध्ययनादीनि सरन्यस्याप्रतिग्रह राज्ञो वृत्ति प्रजागोप्तो अभिप्राद्वाकरादिभिः वैश्यस्तु वार्तावृत्तिश्च नित्यं ब्रह्मकुलानुगह शुद्रस्य द्विश्रूषावृत्तिश्च स्वामिनो भवेत् वार्ता विचित्रालीनं याया वरशलोचनम् विप्रवृत्ते चतुर्थेयं श्रेयसी चोत्तरोत्तरां जघन्यो नोत्तमां वृत्तिम् अनापदी भजेन्दरः ऋते राजन्यमापप्सु सर्वेषामपि सर्वशः ऋतामृताभ्यां जीवेतमृतेन प्रमृतेन वां सध्यानृताभ्यां जीवेत न स्ववृद्ध्या कथञ्चन ऋतमुच्छ शिलं प्रोक्तम् अमृतं यदि याचितं मृतं तु नित्यायाञ्चा स्यात्प्रमत्तं प्रमृतं कर्षणं स्मृतं सध्या नृतं तु वाणिज्यं स वृत्तिर्निसेवनं वर्जयेतां सदा विप्रो राजन्यस्य जुगुप्सितां सर्ववेदमयो विप्रः सर्वदेवमयो नृपः शम्बोधमस्तपः शवचं ज्ञानं दयास्तुतात्मा त्वं मत्वं सत्त्वं च ब्रह्मलक्षणं शौर्यं वीर्यं धृतिस्तेजस्त्याग आत्मजय चमा ब्रह्मण्यताप्रसादश्च रक्षा च छत्रुलक्षणं देवगुर्वच्युते भक्ति त्रिवर्गपरिपोषणम् आस्तिक्यं मुद्यमो नित्यं नैपुणं वेति लक्षणं शुद्धस्य सन्नतिसौथं सेवा स्वामिनमय्या अमन्त्य यज्ञोयं सत्यं गोविप्ररक्षणं स्त्रीणां च पतिदेवानां तद्युशुषानुकूलतः तद्बन्धो स्वनुवृत्तिश्च नित्यं तद्वृतधारणं समार्जनोपलेपाभ्यां गृहमण्डलवर्तनैः स्वयं च मण्डिता नित्यं परिमिष्ट परिक्षता कामैरुच्यावचै साद्भिः प्रचयेन वाक्यै सत्यै प्रिये प्रेम्णा काले काले भजेत् पतिम् सन्तुष्टालोपलुपा दक्षा धर्मज्ञा प्रियसत्यवा अप्रमत्ता सुजस्निग्धा पतिं त्वा पतितं भजे या पतिं हरिभावेन भजेत् श्रीरीव तत्परा हयात्मना हरेलोके पत्या श्रीरीव मोदते वृद्धिसङ्करजातीनाम् तत्तत्कुलकृता भवेन् अचौराणाम् अपापानाम् अन्त्यजान्तेवसायिनां प्रायः स्वभावविहितोऽनां धर्मो युगे युगे वेददिग्भे स्मृतिं स्मृतो राध्यन् प्रहत्य चैह च धर्मकृहि विद्या स्वभावकृत्या वर्तमान स्वकर्मकृत्वा स्वभावजं कर्मवसने निर्गुणतां याद् उप्यमानं मुहुक्षेत्रं स्वयं निर्विर्यतामियात् न कल्पते पुनः सुत्यै उक्तं बीजं च देवं कामाशयं चित्तं कामानामति सेवया विरज्येत यथा राजन्नाग्नीवत् कामबिन्दुभिः यस्य यल्लक्षणं प्रोक्तं पुंसु वर्णाभिव्यञ्जकं यदनत्राद्भिश्च्येत तत्तेनैव विनिर्दिशेत् एष मद्भागते महाप्राणि पारं चां चैतायां सप्तमस्कन्धे जुधिष्ठिर्नारसंवादे सदाचारनिर्णयो नामैकादशोऽध्यायः